गणेशपुराणम् उपासनाखण्डम् अध्यायं फिफ्टि एय्ट् ब्रह्मोवाच एवं श्रुत्वा शूरसेनो मरुत्वद्वाक्यमुत्तमं पुनः पप्रच्छदं व्यासप्रतिश्रुत्वा कथामृतं शूरसेन उवाच के नोपायेन देवेशं ज्ञानं ते गगनं ब्रजेद तमुपायं कुरु विभो वदवाक्यं वाक् किं करोमि ते ब्रह्मोवाच एवं पुनः कृतप्रश्नं नृपं सर्वलोकानां स्मयमान इदं वचः इन्द्र उवाच कश्चित्स्यादिह सङ्कष्टचतुर्थीव्रतकारकः विप्रो वा क्षत्रियो वापि न गरेते नृपोत्तमा तस्याब्दकृतपुण्येन सम्यग्दत्तेन भूभुज इदानीं प्रचले दः सन् खुत पूष नृप कथम व्रत तो संकुदे मु किं पुण्यं किं फलम तोविधि कस्य पूजनम पुरा कृत चात्र सिद्धिस्मतेद यदत्सव सुनाशीर कृपया वदविस्तराद शक्र उवाच अत्राप्युदाहरन्ती ममितिहासं पुरातनं कृतवीर्यस्य संवादं नारदेन महात्मना बभूव बलवान् राजा कृतवीर्यो महीनले सत्यशीलो वदान्यश्च यज्वामानी महारथः द्वितेन्द्रियोमिदाहारो देवद्विजनिषेवकः यस्याश्वगजयो धानं रथिनं सर्वधन्विनाम् न सङ्ख्या विद्यते राजन्सह्याद्रिविषयाशिनां मन्दिरे यस्य सौवर्णा पर्यङ्का भाजनानि च नासीदौदुम् परं पात्रं पाकार्थमपि सर्वदा यस्य द्वादच साहस्राब्राह्मणाः पङ्क्तिभोजिनः सुगन्धा नाम यस्यासीत् पत्नी धर्मपरायणा पतिव्रता पदिप्राणा पदि त्रैलोक्येदि मनोरमा नानालङ्कारसुभगाद्विजदेवातिथिप्रिया एवं तौ दम्पती राजन्नपुत्रौ संबभूवधूः पुत्रार्थं सर्वदानानि व्रतानि च तपांसि चक्रदुर्नियमानन्यान् यज्ञांश्च बहुदक्षिणान् नातीर्थे जग्मुपुत्रीसया तथा नवत्पुत्रो जन्मांर सो ये कदा दुखिदो राजूय समिण राज्य मुद्रा चकोशं चनाजनपद त तेभ्यो निवेद्य सर्वं तौ जग्मदुर्वनमुत्तमं वल्कलाजिनसंवितौ दम्पती तप आस्थितौ जितेन्द्रियौ जिदहारौ जीर्णपर्णानिलाशिनौ चक्षुर्मातृणलक्ष्यौ तौ दृष्ट्वा यं नारदो मुनिः जनकम् कृतवीर्यस्य पितृलोकस्तमब्रवीद अपुत्रत्वात् प्रायगतो विद्यते तनयस्तव कृतवीर्यो मृत्युलोके स्वपरश्वो मरिष्यति यदि तस्य भवेत्पुत्रो नाकलोकप्रदर्शकः कृद वीर्यस्तदा जीवेन्मृदो वा स्वर्गमाप्नुयाद इत्युक्त्वा नारदो यादः पश्यति स्मद्भुदम् भुवि भ्रूषुण्ठे पितरौ पुत्रौ तस्य पत्नीं सकन्यकाम् अग्निज्वालाकुले कोरे कुम्भिपाके ह्यधो मुखान् याम्यदूदैस्ताड्यमानान् क्रन्दो विविधान् रवान् तेषामाक्रन्दितुं श्रुत्वा नारदः करुणानिधिः आगत्य कथयामास तेषाम् दुःखम् भृशुन्दये नारद उवाच शक्रादयो देवगणामुनयः कपिलादयः ये दर्शन कर्त हेरबू तत्क पितर पत्नी पुत्र किमलोके कुंभिपाक पच्यवष्च कथम तन्ना वबु्यसे पूर्वजा त्वमुद्धारे यत्नं कुरु महामुने शक्र उवाच वाक्यं श्रुत्वा मुनीरिदं दुःखिदपितृदुःखेन भृश्यं ज्वालवह्निवद उपायं चिन्तयामास तेषामुद्धारकारकं ददौ श्रेयं स चतुर्थीं व्रतजं तदा विलोक्यप्राणिधानेन भ्रुषुण्डी स परोक्षविद ध्यात्वा गजाननं देवं करे धृत्वा शुभं पयः उवाच पितृनुद्दिश्य याजं देवं गजाननं भ्रुशुण्डिरुवाच यदि भक्र्या मेस्ति गणनाथ व्रतं तव तदा तस्य प्रभावेन शीघ्रमुद्धरपूर्वजान् यवमुक्त्वादुतत्तोऽयं गजाननकरे क्षिप्तमात्रे तदातोये ये विमानानि समारुह्य सर्वेते ते देवरूपिणः सेव्यमाना अप्सरोऽभिस्तूयमानाश्च चारणैः गन्धर्वैर्गीयमानास्ते गणेशस्थानमाप्नुवन् अन्येऽपि कुम्भिपाके च नरादुष्कृदिनो दुष्कृतिनोऽभवन् तेपि सर्वे विमानस्ताः पदं गाणेश्वरं ययुः एवं व्रतस्य महिमा मया ते परिकीर्तितः यदेकदिनपुण्येन सर्वे सद्गतिं गतः जन्मावधिकृतं येन सङ्कष्टं व्रतमादराद शेषोऽपि तस्य पुण्यस्य संख्या कर्तुं न अतस्तस्य प्रभावेन विमानं प्रचलेन्म यदि श्रीगणेशपुराणे उपासनाखण्डे सङ्कष्टचतुर्थीव्रतकधनं नामाष्ट पञ्चाशत्तमोऽध्यायः ओम्